ध्यायामोदबलाभकुण्टनपधीं तेजोमयीं नैष्ठिकीं स्निपाङ्गविलोकिनीं भगवतीं मन्धस्मितश्रीमुखीं वात्सल्यामृतवर्षिणीं सुमधुरं सङ्कीर्तनालापिनीं श्यामाङ्गीं मधुसिक्तसूक्तिम् अमृतानन्तात्मिकामीश्वरीम् ॐ अमृतेश्वर्ये नमः ॐ गणाना आम् त्वा गणपतिब्रह्मवामहे कविं कवीनामश्रवस्तमम्पत आन शृण्वन् ॐ महागणपति देवी सरस्वती धीनाम वाग्धे श्री रुद्रप्रश्न दिस् इस् पार्ट् आफ् द कृष्णयजुर्वेद तैत्रीयसंहिताोस्ट् आफ़् पीपुल् वुड् हवर्दर्े वन्स् यु रिपीट्वान् दे विल् गो स्टोलि how far we go or if you have to break up the sentences i will do that so don't worry about the sura at this point if you are breaking up it's very difficult to uh, stop uh, in the middle at higher uh, probably low is easy but higher is little difficult okay om namo bhagavate rudray om namo om bhagavate rudray नमो भगते रुद्धाय नमस्ते रुद्रमस्ते रुद्रो इषवे नमस्ते रुद्रमन्यव उतो इषवे नमः नमस्ते रुद्रमन्यव उतो नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः वर्ड्ड् यु जस्ट् लिटिल् बेट् इट बिकम् इट गोस् लोस्ट् फोर् मी maybe other people who are more <laughs> musically trained doesn't have to do it. I would say, say <laughs> Namaste Astu Tanvani Bahubhyamutati Namaha. So the thing is for me, otherwise it doesn't go low. Okay? So I don't know that other people have the same problem, or not most probably maybe don't have it, but uh, that is what I do a so little bit. So um, if you look, see that somewhere, wherever it is, At the end of the word, if it's going low, I just take a little bit extra time there for the thing to go down, okay? So other people probably musically trained can do it very well, but uh, for me, it doesn't come naturally, yeah. Okay? Uh, shall we do this uh, two more times? Yeah, I'll, I'll do it one more, so then you guys can do it two more times, okay? Okay. Namaste astutanwane bahubhyamutate namaham. ुव्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवता मा शिवम्भूवा यात इषु शिवता मा शिवम्भूवा ते दनुः से इषुः प्लस् शिवतमा द जाय्निङ्ग् हेपन् डबल् चकार लैक् नमः शिवाय It's Namaha Shivaya, but because of the Visarga followed okay. by a Shakara, it will become double Shakara. Just like a Visarga followed by a Shakara will become double Shakara. In this case it will become Yata Ishu Shivatama Shivam Babuva Te Dhanuhu That the double Ishuhu plus Shivatama becomes Ishu Shivatama, okay? Okay. The best thing to do is that wherever the Visarga comes, try right, to make a, almost a gutter sound, so it becomes कारयर् सो दट् सो यात्मा शिव सो दकारु शिवतमा शिवनु िवतमा शिवं बभू सार यात इषु शिवतमा शिवं भूवते धनुः नो खे हस्तकूके यात इषु शिवतमा शिवं भूवते धनुः you you guys are all, all musically trained so so you'll do it it much much better than me okay so, uh, that's why i'm saying all right now not focus that much on the swara but if you can get it, great because even i would make mistakes there बट् केन् इट ग्रेट् बकाास् ऐ वुड् मेक् मिस्टेक्स् इर् मी है अण्ड् लो सम्ट् देल् चिन् अट् दैट् स्पीड् ओके सो right now i want to get you the words correctly then once the, the words are come then a lot of these things can be fixed automatically smart muscle memory uh, hi, Adhi, um, yeah ah hi sari namaste aaya the the danu or oh, danu danuhu the la danuhu danuku या सर द एंड डजंट गेट कट इट जस्ट हैज टू बी कम्प्लीटली प्रोनाउंसड ओके या सर ईशु शिवतमा शिवं भभूव तेदनुह करेक्ट थैंक यू एनी अदर क्वेश्चंस extra the next sentence and then after that after a while you come back and try to do the whole thing again okay so that uh, we we'll all get more comfortable right now we just familiarizing with the words that's all shiva, shiva, shiva sharvyaaya tapataya no rudra mridaya shiva, shiva. sharvyaaya tapataya no rudra mridaya शिवा शरव्याय तव तया नो रुद्रमृडयकाशिनी या ते रुद्रशिवा तनुरघोरा पापकाशिनी ते रुद्र शिवा तनु रोरा पाकिनी या ते रुद्र शिवा तनु र गोरा पाप काशिनी या ते रुद्र शिवा तनुर गोरा पापा गोरा पा गोरा पापकाशिनी काशिनीपकाशिनी या ते रुद्र शिवा तनुर गोरा पापकाशिनी हरि इण्ड गो कौन् धनुर गोरा गो क् डाउन् राट् ओके ya te rudra shiva tanura ghora papakashini that's how it should be basically I'm, i'm not focusing too much on uh, up and down right now once we get this thing and some of these things will automatically get fixed but go is down and pa is up can we try one more time िवा धनुर तनुरगोरा धनुरगोरा तयानस्तनुवा सन्तमया गिरिशन्ताभि चाकीः तया नस् नु वा शन्तामया गिरिशन्ता गिरिशन्ताया नस्तनुवा तया नस्तनु वा तया नस्तनु वा शन्तमया शन्तमया गिरिशन्ताभिः गिरिशन्ता गिरिशन्ताभि चाकीः गिरिशन्ता वा चार्क री चार्क री चार्क री तया नस्तनुवासन्त गिरिशन्त गिरिशन्ता गिरिशन्ता तयानन्तरं कियामि तया नस्तनुवासन्त तया नस्तनुवासन्त गिरिशन्ता दीर्घाकीन् यामिशुं गिरीशन्तहस्ते विभर्ष्यस्तवे यामिशुं गिरीशन्तहस्ते विभर्ष्यस्तवे विभर्ष्यस्तवे विभर्ष्यस्तवे मि शु गिरिशन्त हस्ते यामि शृगिशन्त कुरु माहि गुंसी पुरुषं जगत् शिवां गिरित्रताम् गिरित्रताम गिरित्रताम हौ डस् इो आफ्टर् देट् शिवां गिरित्रिरित्र शिवाहि माहि माहि माहि पुरुषं सी सिह्षं बिका सन्ति जस्ट् डोट् हिगुम् पुरुषं जगत् शिवां गिरित्रतां कुरु मा पुरुषं जगत् शिवां गिरित्रतां कुरु मा हिगुं शिह् पुरुषं जगत इतां पुरुष शिवां गिरित्रतां कुरु माहि गुं शिव पुरुषं जगत्त्वा गिरिशाच्छा वदामसि शिवे नव च सात्वा गिरिशाच्छा वदामसि च सात्वा स्वगिरिशाच्छा वदामसि शिवे न वच सा त्वा गिरिशाच्छा वदामसि शिवे सर्वमिज्जगदक्षगुम् यक्ष्मगुम् यक्ष्मगुम् यथा न सर्वमिज्जगदक्षक्ष्मगुम् यथा सर्वमिज्जगदक्षमगदयक्षं जगदयक्ष्मगुं यथा नः सर्वमिज्जगद यक्ष्मगम् यथा नः सर्वमिज्जगदक्ष्मगम् यथा नः सर्वमिज्जगदक्ष्मगुम् सुमना असत् सुमना असत् सुमना असत् यथा न यथा नक्षगु सुमनासत् यथा न सर्वमे जगदक्ष्मगुम् सुमना असत्कं जगद यक्ष्मघुं जगत् प्लस् अयक्ष्मं जगदायक्ष्मं जगद यक्ष्मघु जगदयक्ष्मगुं सुमन सर्वमि सुमना असत् यता न सर्वमिज्जगदक्ष्मगुं सुमना असत् यता सर्वमिगुं सुमना असत् बिकम् नः सर्वमिज्जगदयक्ष्मगुम् सुमना असत् यथा न सर्वमेगदयक्ष्मगुं सुमना असत् यथा न सर्वमे जगदयक्ष्मगुं सुमना अध्यवो च दिवक्ता हरि Anna, uh, no shunya. Would it be possible for you to repeat it twice first? Yeah. <coughs> <coughs> Adhyavo cadadi vakta. Adhyavo cadadi vakta. Adhyavo cadadi vakta. Adhyavo cadadi vakta. Adhya प्रथमो दैवो बिशक् प्रथमो दैवोक प्रथमो दैव प्रथमो दैवो बिशक् अद्य वोचदधिवक्ता प्रथमो दैवो बिशक् दधिमो दैवो विषक् अद्य वो च दधिवक्ता uh can we do the whole thing a couple more times yes yeah, so i think we will do one more sentence and we will do, do from the top uh, all all the way down okay so that way we are not going too fast at the same time we can we can start shooting one sentence at a time so let's do the next sentence and then we'll go back okay ah uh. ah hi gischa sarvaan ah hi gischa sarvaan हीगिश्च सर्वा जम्पयन् जम्पयन् जम्बयन् सर्वाश्च सर्वाश्च सर्वाश्च यातुधान्यः ्यः यातु धान्यः अहि गिश्च सर्वा आम् जम्भयन् सर्वाश्च यातु धान्यः अहिगिश्च सर्वान् जम्भयन् सर्वांश्च यातु धान्यः अहे गिश्य सर्वां जम्भयन् सर्वाश्च यातु धान्यह लेट्स डू फ्रॉम द बिगनिंग वन मोर टाइम ओके बिकॉज़ देन अप टू दिस पॉइंट वी हैव कम राइट सो लेट्स डू वन कंप्लीट इन द सेरे टाइम एंड वी कैन प्रोबब्ली रबन्स यू रिपीट ट्वाइस के रम्बा स्लो आप है रम्बा स्लो दिस सीम्स वेरी टंग्सिंग No, no, that that, first paragraph paragraph paragraph, is is is is the the the toughest. toughest After that, everything much much more easier easier. than this, this okay? this okay? But you Namaha, Namaha, Namaha, Namaha will come, so so it be uh, much easier. But no, the words you already heard before, this is the only sentence, this is the biggest paragraph and the toughest paragraph, so okay. don't बिग्स्ट् <laughs> Om Namo Bhagavate रुद्राय रुद्राय ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यवत इषवे नमस्ते रुद्रमन्यव उतो नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवथे धनुः यात िवतमा शिवं बभूवतेरव्यायतया नो रुद्रमृडय शिवाशरव्यायातवतया नो रुद्रमृडय शिवाश याते या रुद्रशिवा तनूरघोरापापकाशिनी तया नस्तनुवा सन्तमया गिरिशन्ता तया न तया नामिषुं गिरिशन्त हस्ते बिभर्ष्य मि शृङ्गिरिशन्त हस्ते बि भर्ष्यस्तवे शिवां गिरित्र तां कुरु माहि गुं जगत डोट् अण्डनी पुरुषं जगत् इट्स् सि हि गोस् दौण्ड् बट् सी हि प्लस् पकारम् सीफ् पुरुषं जगत् इट् बिकम् सीफ् अस्य माहि सीफ् पुरुषं जगत् माहि पुरुषं जगत् पुरुषं इस् लो माहि सीफ् पुरुषं जगत् ओके शिवां गिरित्रतां कुरु माहि गुंसि पुरुषम् जगत् पुरुष माहि गुं से पुरुषी माहित शिवां गिरित्रतां कुरु माहि गुं सिः पुरुषं शिवां गिरित्रतां कुरु माहि गुंसि पुरुषं जगत् वचसा त्वा शिवेन वचसा त्वा गिरिशाच्छा वदामसि शिवे नव च सात्वागिविशाच्चा वदामसि यथा न सर्वमि जगदयक्ष्मगुं सुमना असत्ता प्रथमो दैव द्यवोच ददि वक्ता प्रथमो दैवो बिशत् अहीगिश्च सर्वा आम् जम्पयन् सर्वा आश्च यादुधान्यः अहीगुंश्च सर्वान् जम्पयन् सर्वान् च यातु धान्यः श्च सर्वा जम्पयन् सर्वाश्चयातु अहि गेश्च सर्वा जम्पयन् सर्वाश्च यातु धान्यः इन् okay let me try. you try, let me try. Okay. Okay. who wants to try rahesh or sujatha i even ragini yeah. wanted to try too right anybody? <coughs> anybody la mahesh go ahead okay i will try i i don't know will miserably fail but let <clears throat> om namo bhagavate rudray namas ते रुद्रमन्यव उतोत इशवे नमः नमस्तेऽस्तु धन्वने बाहुभ्यामुत ते नमः यात इषुः शिवतमा शिवम् बभूव ते धनुः शिवा शरव्यायातवतया नो रुद्रमृडय शिवा शरव्यायातवतया नो रुद्रमृडय शिवाशरव्या यातवतया नो रुद्रमृडय okay? yeah. शिवाशरव्या यातवतया नो रुद्रमृडय <coughs> रुद्र शिवातनूरघोरापकाशिनी तनुरघोरा याते या ते रुद्रशिवा तनु रघोरा तयानस्तनुवाचन्तमया गिरिशन्ताभि चाक चाकशीः या नस्तनुवासन्त गिरिशन्ताभिस्नुवा इ गोइङ्ग् लो एवे रानुवासन्त गिरिशन्ताभिचा स्ते बिभर्ष्यस्तवे शिवाम् किरित्रताम् कुरुमागुंसि हि पुरुषम् जगत् शिवे नव च सात्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगत यक्ष्मघं सुमना असत् अद्य वोचदधिवक्ता प्रथमो दैव्योऽभिषक् अही गुंश्च सर्वागुश्च अही गर्वां जम्भयर्वाश्च सारी वन्स् मोर् हरि हरि अही गत्य सर्वां जम्भयर्वाश्च डबल् सर्वा सर्वा सर् डबल् अही गृश्च सर्वा आञ् जम्भयन् सर्वा आश्च अहि गृश्च सर्वा जम्भयन् सर्वाश्च यातु धान्यः असौ सयण्डु eh devat vela eh guru when ji no session aita hai i am in the camera adnwari gele he the need of guru he just coming here that's all that he doesn't need one okay he knows anybody else want to try i can try okay नमो भगवते रुद्राय नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः याता यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शिवारव्याय शिवा शिवा शरव्यायव्याय शिवा शरव्याय तव तया नो रुद्र मृढय या ते रुद्र शिवा तनूरा द्र शिवा तनुरघोर पा तनुरघोरा पापकाशिनी तनुरघोरा पापकाशिनी ओके याथे रुद्र शिवा तनुरघोरा पापकाशिनी तयानु तया मस्तनुवा तया नस्तनुवा शन्तमया गिरिशन्ताकशीः यामिषुं गिरियामिषुं गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवां कुरु शिवां गु गिरित्रं कुरु शिवां गिरित्रि पुरुषं जगत् माहि गुं सि पुरुषं जगद् माहिगुं सिः कंसिद्धान् माहिगुं सि पुरुषं जगत् माहिगुं सि पुरुषं शिवां गिरि हि गुं सिंह सिंह पुरुषं जगत् शिवेन वचसा शिवेन वचसात् वा शिवेन वचसात्वा गिरिशन् गिरिशाच्छ शिवेन वचसात् वा शिवेन वचसात्त्वा गिरि गिरिशाच्छा शिवेन वचसा त्वा गिरिशाच्छा गिरि यथा न सर्वमि यथा न सर्वमिज्जगदा यक्ष्मगुं सुमना यक्ष्म जगदा यक्ष्मगुं यथा नः सर्वमि यथा नः सर्वमिज्जगदयक्ष्मगुं सुमना असत् यथा न सर्वमिज्जगदयक्ष्मगुं सुमना असत् करेक्ट् दि दिवक्ता प्रथमोथैवोभिषक् अहि अहिश्च अहिगिश्च सर्वा आन् जम्बयन् सर्वा आश्चयतु धान्यतु या यातु धान्यः Anybody else want to try? Sujata, you want to go? Okay, I can try. <laughs> I'll go last. Okay. <laughs> Om Namo Bhagavate Rudraya Namaste Rudra Manyava uttota ishave namaha Namaste astra धन्वने बाहुभ्याम् उत ते नमः या त इषुः शिवतमा शिवम् बभूव ते दनुः तव तया नो रुद्रमृडय या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया तनुवाशन्तमया गिरिशन्ता विचाकशीः यामिशुम् गिरिशन्त हस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरुमा हिगुंसी पुरुषम् जगत् शिवे नव हिगुंसी पुरुषम् जगत् शिवेन वचसा त्वा गिरिशा चावदामसि यथा नः सर्वमिज्जगदयक्ष्मगुंसुमना असत् अद्य वोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहि गिश्च सर्वान् जम्बयन् सर्वा आश्च यातु धान्यः Very good. Cool. Wow. Hey, I tough mean. act to follow, man. <laughs> that would be a tough act to follow. Uh, practicing a lot. He's going to hit me if I don't do it properly now. <laughs> that seems to be okay. <laughs> But that was awesome. Okay, I'll try. Okay. Om Namo Bhagavate Rudrayam नमस्ते रुद्रमन्यव उतोत इशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः यात इषु शिव शिवतमा शिवम् बभूवते धनुः शिवा शरव्या या तव तया या ते रुद्रशिवा तनुरगोरा गो, या... या ते रुद्रशिवा तनुरगोरा पापकाशिनी तया नस्तनुवा तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकीः यामिषुम् शिवाम् गिरित्रताम् कुरु मा हिगुंसीः पुरुषम् जगत् शिवेन वचसा शिवेन वचसा त्वा यथा न सर्वमिज्जगदयक्ष्मगुम् सुमना असत् अद्यवो अद्य वोचतदिवक्ता प्रथमो दैव्यो बिशक् अहीगश्च सर्वा अहीग्यश्च सर्वान् जम्भयन् सर्वाशयातु धान्यः Anybody else want to try? Sarla, you want to try? Okay, do we have time? If you want to try, we can try. It shouldn't take that long, right? Okay. नमस्ते ओं नमो भगवते रुद्राय नमस्ते रुद्रमन्यव उतोत इशवे नमः नमस्ते अस्तु दन्वने बाहुव्यामुतते नमः यातयिषु शिवतमा शिवम् बहूवते तनुः शिवाशरव्याया तव तया नो रुद्रमृडया या ते रुद्रशिवा तनु रघोरापापकाशिनी तया नतनुवा शन्तमया गिरिशन्ता यामिषं गिरिशन्त हस्ते शिवाम गिरि ्रतां कुरु माहि माहि पुरुषं जगत् माहिषं जगत् शिवने शिवेन वचसा त्वा गिरिशाचा वदामसि यता, यता, यता, यता, यता यक्ष्मगुंसुमना असत यता नः सर्व यक्ष्मगुं सुमना असत। असत् अद्य वो चदधिता प्रथमो दैव्यो बिशक् प्रथमो दैवो बिशक् प्रथमोकिन्थकार प्रथमो दैव्यो बिशक् प्रथमो दैव्यो भिशक् अद्य दि अद्य दी, अद्य वोचदधिता प्रथमो दैवो बिशक् अहिगश्च सर्वा आम् आन् जम्बयन् सर्वा आम् जम्बयन् सर्वा अहि गिश्च सर्वा आन् जम्बयन् सर्वा आश्च यातु, या, यातु धान्यः Okay somehow this this is letting go of a sigh of relief oh, oh this is very tough uh, maths i mean i've heard it so many times in spite of that they, every word every letter is like ugh you know it was so hard the first time i learned i just learned this first para and it was so hard so only this time i'm getting it <laughs> it is difficult <laughs> well, but i have I hope you saying okay. after that it is much much easier you are right? you are so much better than i have been that's all, <laughs> uh, a... all of you i mean it will come don't worry about it okay so uh, can we yeah. practice the laghu nyasa yeah, we don't have time right okay yeah i think we, the thing is we'll practice it later again but we want let's go through rudram once and then we'll come back to that again right so i don't want to forget it that's why yeah ya uh, uh arey once in a while let's practice that yeah. maybe not we'll once, maybe in class, maybe once, once in a while once in a while let's let's remember yeah, yeah, that we'll, and... we'll go through that once in a while i just uh, you know just yeah. uh, do <laughs> we are uh, we we, we will do this and then uh, At some point, we'll yeah. go back and practice that and this also. Okay, so, yeah. no problem. Okay. Thank you so much, Baba. All right. We'll do Loka Samastaha. Thank you, Harit. Om Loka Samastaha. Om Loka Samastaha. Om Loka Samastaha. Om Loka Samastaha. लोकाः समस्ताः सुखिनो भवन्तु ओम शान् शान् शान् ओम शिवं भो नः भयम् ओम के